मुद्गलपुराणं खण्डं वन् वक्रतुण्डचरितम् अध्यायम् एट् गुणेशवरप्रधानम् श्रीगणेशाय नमः श्रीशिव उवाच शृणुदेविगणेशस्य चरितं पापनाशनं भुक्तिमुक्त्रिप्रदं चैव स्मरणेन सुसिद्धितम् गजाननप्रसन्नात्मा परमात्मा परात्परः भक्तानन्दकरः साक्षादुचिवान्भक्तिभाविदः श्रीगजानन उवाच भो भोस्तत्वानि सर्वाणि वरं भ्रूदहृदीप्सितं तपसाकं प्रसन्तुष्टो भक्त्या स्तोत्रेण भावतः भवत्कृतमिदं स्तोत्रमधिप्रीतिकरं मम सर्वसिद्धिप्रदं चैव पठदे शृण्वदे भवेद विद्याकामो लभेद्विद्यां धनकामो धनं लभेद स्त्रीकामस्त्रियमाप्नोति पुत्रकामः सु पुत्रकान् मुक्ति कामों लेन्मुक् जय कामो लभेद। जय लोत्र पठनाछिद लभदे परम श्रीशिव उवाच गणेशुवा भक् नम्रत्मकंधरा ऋषयस् प्रणम्यादूजुस्ते हृष्टम आदिर्षय ऊजुः प्रसन्नो भगवन्नद्य यदि देयो वरो महान् त्वदीयामचलां भक्तिं देहिनो गणनायक सृष्टि सामघ्यमत्यन्तमस्माकं त्वत्प्रसादः अस्तु वै भजतां सर्वसिद्धिदाश्च वयं तथा यद्यद् हृदीप्सितं देव तत्तत्सिभ्यदु सर्वदा बन्धहीनत्वमनिशं देहित्वं विघ्ननाशन तत्त्वानां वचनं सर्वे श्रुत्वा गणपतिस्वयं ददौ तेषामभीष्टं स महादेवी महप्रदः श्रीगजानन उवाच दत्ता पाया दें ये परा ये उतु ऋषीण पश्यता खलु स्वानन्ते जगदे दे गणेशे परिन्ना वेवा पुखे क्षण गणेश प्राप्य महादुद बुद्धियुक्ता महादेवासृष्टिं चक्रुः प्रभावतः परस्परप्रवेशं च चक्रुस्त ऋषयस्तदा तेनैकभावदां प्राप्तास्तस्मादण्डं बभूव वै तस्मिन्नण्डे पुमानादिरेकः सर्वात्मशक्तिमान् जादो वै भगवान् साक्षाद्गुणेशो गुणवल्लभः महदाकालयोगेन देहात् तस्य विनिःसृतः आपस् स्थितं ह्यण्ठं तत्र वृद्धिं ययौ च सः कालेनावयवीजातस्ततः सम्पूर्णदेहवान् तस्य तेजःप्रभावेण तदण्डं स्फुटिदं महद स एव निःसृतसाक्षादसङ्ख्यातार्कसन्निभः अपारमहिमा यस्य सर्वादिस्सर्वभावनः सर्वदो हस्तपादो वै सर्वतो नासिकोदरः सर्वदोक्षिमुखो नन्दः सर्वदश्रुतिमान् बभौ असङ्ख्यावयवो देवो ह्यसङ्ख्यो दारविक्रमः असङ्ख्यलीलया युक्तः परमात्मस्वभाववान् आदिमध्यान्तहीनः स सर्वत्र व्याप्य संस्थितः महतां च मकीयान्यो यस्य पारो न दृश्यते अणुभ्योऽणुतरो देवो रोमरन्ध्रेषु यस्य वै ब्रह्माण्डानि भ्रमन्ति परागा इव चाम्बरे महाकारणनामा वै तुरीयो देहधारकः आत्मप्रतीदिरूपं यत् कथ्यते महाद्युतिः गुणाधि वै सर्वात्मा गुेशस्ते नर्वात्मास्देहर प्रभु गुणेशाना चेष्टात्मक तद तेन जादानी, पश्चात महात्म आपशरीरसंसृष्टास्तत्र सुप्तोऽयमीश्वरः नारायण यदि प्राप्तं नाम तस्य महात्मनः आपो नरप्रसूताश्च नारा तेन नाराप्रकीर्तिताः ता एवायतनं तस्य कर्मणा तेन स प्रभुः भिन्नं भिन्नं सृजति च त्रिविधं त्रिविधं, त्रिविधं पृथक् ब्रह्मेदि तेन सम्प्राप्तं नाम तस्य प्रभावतः वेदोपनिषदि प्रोक्तो ब्रह्मलोकः सनातनः सर्वेभ्यो यः परश्रेष्ठमेनं विद्धि सुनिश्चितम् सर्वेषां यत्नदादास सकालरूपेण वर्तते चालकस्तेन नाम भून्महादेव इति प्रभोः कर्मणामयमाधारो जातः सूर्य इति स्मृतः मोहको वस्तु जातानामादिशक्रीश्च तेन सह इत्यादिनामदां प्राप्तो नानाभावेन कर्मणा गुणेशस्तु तुरीयात्मा सर्वत्रा सौ महान् प्रभुः कारणानां च सर्वेषां कारणं च न संशयः महाकारणमेतच्च पुराणेषु प्रपढ्यते कर्तुः कर्ता स्वयं साक्षाद्धर्तुर्हर्ता न संशयः पादुक् पादा पादाप्रकाशस्य प्रकाशोऽयं गुणेश्वरः त्रिदेहो गुणतश्चायं वामे राजसदां गतः सात्विको मध्यभागे स सा दक्षिणे तामसो बभौ यदादृशो महात्मा सा वादिदेवो गुणेश्वरः अज्ञानेनावृतो यस्मात्तेन वै तपसि स्थितः सो तपस्तप उग्रं तु हृदि ध्यात्वा गजाननं बहुकाले व्यधिक्रान्ते प्रसन्नो भूद्गजाननः आगदो देवदेवेशो धेनुर्वत्समिवादराद बोधयाम सम शीघ्रम गुणेशं भक्तवत्सल श्रीगणेश उच यहक्षर मंद्र से जपसा पिते प्रसन्नों महाबाह गुणेश वृणुवांछितं बो देंगे नृपाता गुणेश्वरप्रदुष्टावभक्तिभावसमन्वितः गणेश उवाच नमामि देवं गणनाथमीशं सदा सुशान्तं हृदियोगिनां वै अपारयोगं दृढयोगनाथं सुशान्तयोगेश्वरमानतोऽस्मि अयोगरूपं कथितुं त्वशक्यं नवृत्तिमात्रं ह्यसमाधिसंस्थम् अभेदभेदात्मकमूलहीनं सुशान्तयोगेश्वरमानतोऽस्मि सदा प्रभुं स्वसंवेद्यमयं विभान्तं निजात्मयोगेन च सुशान्तयोगेश्वरमानतोऽस्मि विदेहयोगेन च साङ्ख्यरूपं जनेन लभ्यं गणराजमेढ्यं सदा शुपाधौ नहितं गणेशं सुशान्तयोगेश्वरमानदोऽस्मि सुसंस्थितं सर्वविलासयुक्तम् हृद्विज्ञबोधात्मकमादिदेवम् अभेदमात्रं परमार्थरूपं सुशान्तयोगेश्वरमानदोऽस्मि अनादिमध्यान्तमनन्दपारं सुसंवृतं सन्ततमात्मरूपं गणेशमाद्यं पुरुषं पुराणं सुशान्तयोगेश्वरमानतोऽस्मि अनादिरूपं प्रकृतिप्रभेदं सदा सुबिन्द्वात्मकमप्रमेयम् अमायिकं मोहकरं प्रसिद्धं सुशान्तयोगेश्वरमानदोऽस्मि गुणेषु रूपेण विराजमानमपारमव्यक्तमयं गणेशं गुणैर्विहीनं गुणचालकं च सुशान्तयोगेश्वर मानदोऽस्मि समस्वरूपं जगदीशमेकं सुषुप्तिरूपं सकलावभासं अनादिमायामयमोहधारं सुशान्तयोगेश्वर मानदोऽस्मि जगन्मयं सूक्ष्मविभूतिधारं हिरण्मयं स्वप्नगदं गणेशं जनस्य विज्ञानकरपुराणं सुशान्तयोगेश्वरमानदोऽस्मि स्तुतं सदा देवमुनीन्द्रसिद्धैष्ठितं जगन्मोहमयं प्रसिद्धं सदा परं सुशान्तयोगेश्वर मानदोऽस्मि असत्स्वरूपं विविधेष्वभेदं गणेशमायामयशक्तिरूपं मनोवचो हीनमहानुभावं सुशान्तयोगेश्वर मानतोऽस्मि रविस्वरूपं शमृतं पुराणमभेदोकात्मकमात्मरूपम् अखण्डमानन्दखनं गणेशं सुशान्तयोगेश्वरमानतोऽस्मि समं सदा विष्णुमचिन्त्यभावमभेदभेदादिविवर्जितं च सदा सुखानन्दमयं गणेशं सुशान्तयोगेश्वरमानदोऽस्मि अचिन्त्यरूपं सकलैर्विहीनं सदाशिवं मोहविहीनमाद्यम् अपारवेशं स्वसुखावभासं सुशान्तयोगेश्वरमानदोऽस्मि पदार्थरूपं विविधप्रभेदम् विकारयुक्तं परमप्रमेयं बोधात्मकं त्वं पदरूपमेव सुशान्तयोगेश्वरमानदोऽस्मि अखण्डमेकात्मकविश्वरूपं विकारहीनं महदप्रमेयं गणेशमेकं हृदि तत्पदस्थम् सुशान्तयोगेश्वरमानतोऽस्मि गणेशचैते विविधस्वरूपा कलावतारा भवतो हि भव्याः सुशान्तमेकं भवदीयरूपं कथं विभाव्यं मनसा न लभ्यं सर्वात्ममयं वदामि तदा दु प्रकृतिस्वरूपं गकाररूपं जगदीशभेदं गकारमेकं शरणं प्रपद्ये मनोवचोकिनमधो वदामि ह्ययोगसंयोगमयं नकारम् निवृत्तिरूपं शरणं सदा वै नमामि तं सर्ववरिष्ठमाद्यं न शक्यसे वक्तुमवक्तुमेव मदो भवन्तं प्रणमामिढुण्डे गणेशविघ्नेश महानुभावप्रसीदभो ब्रह्मपदे महात्मन् जन्म धन्यं धन्यमक्षिविद्याज्ञानं तपःफलं येन दृष्टो गणाधीशकृदकृत्योऽस्मि साम्प्रतं मह्यं यदि वरो देयस्तदा भक्तिं दृढां त्वयि देहि मे परमेशानययामोहो विनश्यति सृष्टि सर्जनसामर्थ्यं भजतां कामपूरणं निर्विघ्नं सर्वकार्येषु देहि विघ्नविनाशन गुणेशवचनं श्रुत्वा सुप्रसन्नोकजाननः मेघगाम्भीर्यसादृश्यं वचनं द्विधमब्रवीद श्रीगणेश उवाच भविदामे मे महाभक्तिसृष्टीनां रचनास्तथा नानाविधा भविष्यन्ति निर्विघ्नं सर्वदा भवेद् भवद्भ्यः सर्वदा धृत्वं भविष्यति तद्धा नख महाकार्ये समुत्पन्ने दास्येकं दर्शनं च ते स्तोत्रं त्वया कृतं यच्च सर्वमान्यं भविष्यदि पठदां शृण्वदां चैव ब्रह्मभूतकरमखद स्तोत्रं ब्रह्मपदे साक्षान्नाम्ना वै स्तुतिसारकं भविष्यति महाभाग सर्वसिद्धिकरं परम् सकामेभ्यो जनेभ्योऽपि कामदं चिन्तितप्रदम् निष्कामेभ्यः स्वभक्तेभ्यो मुक्तिदं प्रभविष्यति मम प्रीतिकरं पूर्णं सारं सर्वत्र भाषितं त्रिकालपठनादस्य साध्योऽहं नात्र संशयः श्रीशिव उवाच युत्युक्त्वान्तर्हितसाक्षात् गणेशो भक्तवत्सलः देवस्यापि वियोगेन गुणेशोऽपिमनाह्यभूत ॐ तत्सदिश्रीमदान्ध्ये पुराणोपनिषद्दिश्रीमन्म उद्गले महापुराणे प्रथमखण्डे वक्रतुण्डचरिते गुणेशवरप्रदानम् नामाष्टमोऽध्यायः ओ